श्रीमद्भागवत् महापुराणं दशमस्कन्ध अष्टमोऽध्याय वस्सान्मुञ्चन् क्वचिन् समये क्रोशसञ्जातः स स्तेयं स्वाद्वत्यथदधिपय कल्पितैस्तेययोगै मरकान् भोक्षन् विभजति स चेन्नातिभाण्डं द्रव्यालाभे स गृहीकुपितो प्रत्युपक्रोश्य तोकानम् हस्ताग्राह्यो रचयतिविधिं पीठको लूखलाद्यैः छद्रं हनन्तरनिहितवयुनशुक्यभाण्डेषु तद्वित ध्वान्तागारे घृतमणिगढं स्वाङ्गमर्थप्रदीपम् काले गोप्यो यर्हि गृहङ्क्री तेषु सुव्यग्रचित्ताः एवं धार्ट्यानुसती कृते मेहनादीन् वास्तौ तेजोपायैर्विरचितकृते सुप्रतीको यथास्ते इत्स्थम् इत्थं सृभिः सभनयन श्रीमुखालोकिनिभिः व्याख्यातार्था प्रहसितमुखेन शुपालं धुमेक्षत एकदा क्रीणमानास्ते रामाद्यागोपदारकाः कृष्णो मृदं भक्षितवानिति मात्रे न वेदयन् सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी यशोदाभयसम्भ्रान्तप्रेक्षणाक्षमभाषत कस्मान् मृदुमदान्तात्मन् भवान् भक्षितवान् रः वदन्ति तावकाशे ते कुमारास्ते ग्रजोऽप्ययम् श्रीकृष्णवाच नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः यदि सत्यगिरस्तर्हि समक्षं पश्य मुखम् यद्देवं तर्हि व्यादेहेत्युक्त स भगवान् हरिः व्यादत्ता व्याहतैश्वर्यक्रीडामनुजबालकः सा तत्त दृशे विश्वं जगत्स्थानोचखं दिश सा द्वे द्वे पाब्धि ज्योतिश्चक्रं जलं तेजो नभस्वानवे विन्द्यदेव च वैकालिकालिन्द्रियाले मनो मात्रा गुणाश्रयः एतद्विचत्रं स जीवकालस्वभावकर्माश्रयलिङ्गभेदं सोनो सनो वीक्ष्यविदारितास्य व्रजं सहात्मा नमवापशङ्करं न वापशङ्काम् किं स्वप्न एतद्दुतं देवमाया किं वा मदीयो बत बुद्धिमोह अथो अमस्यैव मार्भकस्य कश्चनोत्पत्तिक आत्मयोगः अथो यथावन्न वितर्तगोचरं चेतो मनः कर्मवचोभिरञ्जसां वचो श्रियं येन यत् प्रतीयते स्तुतिर्विभाव्यं प्रणतास्मि अहं ममासौ परिते स्मे सुतो ब्रजेश्वरस्याखिलवित्तपासती गोप्यश्च गोपासह गोधनाश्च मे जन्माय्येत्थं कुमति समे गतिः इत्थं विदित्तत्त्वायां गोपिकायां शयेश्वरः वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभू सद्यो नष्ट स्मृतिर्गोऽपि सारोऽप्यारोहमात्मजं प्रविद्धस्नेहकलिलहृदयाशीद्यथा पुरा तया चोपनिषद्भ्यश्च सांख्ययोगैः सात्वतैः उपगीयमानमाहात्म्यं हरि राजवाच नन्द किमु करो ब्रह्मण् श्रेय महोदयम् यशोदा च महाभागा पपौ यस्यासनं हरिम् पितरौ नान्व विन्देतां कृष्णोदारार्भके हितं गायन्त्यन्त्यापि कवयो यल्लोकसमलापहम् शेषोकुवाच द्रोणो वसूनां प्रवरोधरया सह भार्ययां करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच जातर्यो नौ महादेवे भुविश्वेश्वरे हरौ भक्तिसात् परमालोके यज्ञाञ्चो दुर्गतिं परेत् अस्मृत्युक्तः स भगवान् व्रजे द्रोणो महायशाः यज्ञे नन्द इति ख्यातो यशोदासधराभवत् ततो भक्तिर्भगवति पुत्रीभूते जनार्दने दम्पत्योर्नृतरामाचेद्गोपगोपीषु भारत कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभु सह रामो वसंश्चक्रे तेषां प्रीतिं शलीलयां ते श्रीमद्भागवते महापुराणे परं हिंसां शयितायां दशं स्कन्धे